क्लीं कृष्णाय गोविन्दय गोपीजनमल्लभाय स्वाहा क्लीं कृष्णाय गोविन्दय स्वाहा क्लीं कृष्णाय गोविन्दय स्वाहा क्लीं कृष्णाय गोविन्दय स्वाहा क्लीं कृष्णाय गोविन्दय गोपीजनमल्लभाय स्वाहा क्लीं कृष्णाय गोविन्दय गोपीजनमल्लभाय स्वाहा क्लीं कृष्णाय गोविन्दय गोपीजनमल्लभाय स्वाहा क्लीं कृष्णाय गोविन्दय गोपीजनमल्लभाय स्वाहा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 क्लीं कृष्णाय गोविन्दाय गोपीजनमल्लबाय स्वाहा क्लीं कृष्णाय गोविन्दाय गोपीजनमल्लबाय स्वाहा क्लीं कृष्णाय गोविन्दाय गोपीजनमल्लबाय स्वाहा क्लीं कृष्णाय गोविन्दाय गोपीजनमल्लबाय स्वाहा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 क्लीं कृष्णाय गोविन्दाय गोपीजनमनुलभाय स्वाहा क्लीं कृष्णाय गोविन्दाय गोपीजनमनुलभाय स्वाहा क्लीं कृष्णाय गोविन्दाय गोपीजनमनुलभाय स्वाहा क्लीं कृष्णाय गोविन्दाय गोपीजनमनुलभाय स्वाहा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 Well ीं कृष्णाय गोविन्दय गोपीजनमल्लभाय स्वाहा क्लीं कृष्णाय गोविन्दय गोपीजनमल्लभाय स्वाहां कृष्णाय गोविन्दय गोपीजनमल्लभाय स्वाहां कृष्णाय गोविन्दय गोपीजनमल्लभाय स्वाहां कृष्णाय गोविन्दय